अथ श्रीदक्षिणामूर्तिपञ्चरत्नस्तोत्रम् मर्तरोगशिरोपरिस्थितनृत्यमानपदाम्बुजम् भक्तचिन्तितसिद्धिदानविचक्षणम् कमलेक्षणम् भुक्तिमुक्तिफलप्रदम् भुवि पद्मजाच्युतपूजितम् दशिणामुखमाश्रये मम सर्वसिद्धितमीश्वरम् विद्धत प्रियमर्चितम् कृतकृच्छ्रतीव्रतपोव्रतैः मुक्तिकामिभिराश्रितैर्मुहुर्मुनिहृदृढमानसैः मुक्तिदं निजपादपङ्गजसक्तमानस योगिना दक्षिणामुखमाश्रये मम सर्वसिद्धितमीश्वरम् कृत्तदक्षमखाधिपम् अरवीरभद्रगणेन वै यक्षराक्षसमत्य किन्नरदेव पन्नगवङ्गितम् दक्षिणामुखमाश्रये मम सर्वसिद्धितमीश्वरम् नक्तनाथ कलाधरम् न गजापयोधर मण्डल लिप्तचन्दनपङ्गकुङ्कुममुद्रितामलविग्रहम् शक्तिमन्दमशेषसृष्टिविदानके सकलम् प्रभुम् दक्षिणामुखमाश्रये मम सर्वसिद्धिदमीश्वरम् रक्तनीरजतुल्यपादपयोज सन्मनिनोपुरम् बन्धनत्रय भेद पेशलपङ्गजाक्षशिलीमुखम् हेम शैलशरासनम् पृथु चिञ्चिनीकृतदक्षकम् दक्षिणामुखमाश्रये मम सर्वसिद्धितमीश्वरम् यः पटेश्च दिने दिने स्थल पञ्चरत्नमुमापते प्रातवे मया कृतम् निखिला च तूलमहोनलम् तस्य पुत्रकलत्र मित्रदनाधिसन्तु कृपा बलात् ते महेश्वर विश्वनायक शाश्वत